अथ वैकृतिकम् रहस्यम् ऋषिरुवाच ॐ त्रिगुणातामसी देवी सात्त्वकीया त्रिधोदिता सा शर्पाचण्डिका दुर्गा भद्रा भगवतीद्यते हरे रुक्ता महाकाली तमोगुणा मधुवेदवनाशार्थम् यातुष्टा वाम्बुजासनः दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा विशालया राजमाना त्रिंशल्लोचनमालया स्फुरद्दशनदंष्ट्रासा भीमरूपापि भूमिपा रूपसौभाग्यकान्तीनाम् सा प्रतिष्ठा महाश्रियः खड्गबाणगदाशूरचक्रशङ्खभुषुण्डिभृते परिघम् कार्मुकम् शीर्णम् निश्चोदरब्रुधिरम् दधौ एषा सा वैष्णवीमाया महाकाली आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् सर्वदेवशरीरेभ्यो याभिर्भूतामितप्रभा त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला रक्तमध्या रक्तपादा नीलजङ्घोरुन्मदा सुचित्तजगना चित्राणुलेपना कान्तिरूपसौभाग्यशालिनी अष्टादशभुजा पूज्या सा सहस्रभुजा सती आयुधान्यवक्ष्यन्ते दक्षिणाथः करक्रमात् अक्षमाला च कमलम् बाणोऽसिलिशम् गदा चक्रम् त्रिशूलम् परशुः शङ्खो घण्टा कमण्डलुः अलङ्कृतभुजामेभिरायुधैः कमलासनाम् सर्वदेवमयीमीषाम् महालक्ष्मीमिमाम् नृपा पूजयेत् सर्वलोकानाम् सदेवानाम् प्रभुर्भवेत, गौरी देहात् समुद्भूता या सत्मैकगुणाश्रया साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी दधौजाष्टभुजाणकुसरेशूलचक्रभृते शंख् घंटा लांगल चाराकसुधिपा सूजिता भक्त सर्व्ञ प्रय्छतिशुंभम से देवी कुंभासुर निबर्णीता स्वूप मूर्तीव पार्थिव उपार जगन्माथगाशाया महालक्ष्मीदा पूज्या महाकाल सरस्वती दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् विरिञ्चस्वरया मध्ये रुद्रो गौर्या च दक्षिणे वामे लक्ष्म्या ऋषेकेशः पुरतो देवतात्रयम् अष्टादशभुजा मध्ये वामे चास्या दशानना दक्षिणेष्टभुजा लक्ष्मीर्महतीति समर्चयेत् अष्टादशभुजा चैषा यदा पूज्या नराधिपा दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा कालमृत्यू च सम्पूज्यो सर्वारिष्टप्रशान्तये यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी न वा स्याशक्तयः पूज्यास्तदा रुद्रविनायकौ नमो देव्या इति स्तोत्रैर्महालक्ष्मीम् समर्चयेत् अवतायाचायांराश्रया अठादुजा चैषा पूज्या महिषमर्दिनी महालक्ष्महा सब प्रोक्ता सरस्वती ईश्वरी पुण्यपापाणोकमहेश महिषातण पूजिता सा जगत् पूजये जगराम् धात्रीम् चण्डिकाम् भक्तवत्सलाम् अध्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः भूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः रुधिरार्तेन बलिनामांसेन सुदयानृप बलिमांसादिपूजेयम् द्विप्रवर्ज्यामयेदिता तेषाम् किल सुरांसैर्नोक्ता पूजानृपक्वचित् प्रणावाचवनीयेन चन्दनेन सुगन्धिना सरकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः वामभागे गतो देव्या छिन्नशीर्षम् महासुरम् पूजयेन्मैरम् येन प्राप्तम् सायुज्यमीशया दक्षिणे पुरतः सिंहम् समग्रम् वाहनम् पूजयेद्देव्याधृतम् येन चराचरम् कुर्याच्चस्तवनम् धीमांस्तस्य एकाग्रमानसः ततः कृताञ्जलिर्भूत्वा स्तु बीतचरितैरिमैः एकेन वा मध्यमेन नैकेनेतरयोरिह चरितार्धम् तु न जपे जपच्छिद्रमवाप्नुयात् नमस्कारान् कृत्वा मूर्ध्निर्जलिः क्षमापयेज्जगद्धात्रीम् मुहुर्मुहुरतन्द्रितः प्रतिश्लोकम् च जुहुयात्पायसम् तिलसर्पिषा जुहुयात् स्तोत्रमन्त्रैर्वाचण्डिकायै शुभम् हविः भूयो नामपदैर्देवीम् पूजयेत्सुसमाहितः प्रयतः प्राञ्जलिः प्रक्वः प्रणम्यारोप्य चात्मनि सुचिरम् भावयेदीशाम् चण्डिकाम् तन्मयो भवेत् एवम् यः पूजयेद्भक्त्या प्रत्यहम् परमेश्वरी भुक्त्वा भोगान्यथा कामम् देवी सायुज्यमाप्नुयात् यो न पूजयते नित्यम् चण्डिकाम् भक्तवत्सलाम् वहस्मीकृत्यास्य पुण्यानि निर्दहेत् परमेश्वरी तस्मात्पूजय भूपालसर्वलोकमहेश्वरी यथोक्तेन विधानेन चण्डिकाम् सुखमाप्स्यसि इति वै रहस्यं रहस्यम् सम्पूर्णम्